श्रीहरये नमः तृतीयस्कन्धः अथ प्रथमोऽध्यायः श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल क्षत्रावनं प्रविष्टेन त्यक्त्वा स्वगृहं रुद्धिमत् यद्वा अयम् मन्त्रकृध्व भगवान् अखिलेश्वरः पौरवेन्द्रगृहम् हित्वा प्रविवेश आत्मसात्कृतम् राजोवाच कुत्र चतुर्भगवतो मैत्रेयीणा ससङ्गमः कदा वासकसंवातयेतत् वर्णय नः प्रभो न ह्यल्पार्थोधयस्तस्य विदुरस्यामलात्मनः तस्मिन् वरीयशी प्रश्नसाधुवाधो बबृंहितः सोऽत उवाच स एवं ऋषेवर्योऽयं पृष्ठो राज्ञा परीक्षिता प्रत्यागतं सुबहवेत् प्रेतात्मा श्रूयतामिते श्रीसुख उवाच यथातो राजा स्वसुधान् असाधून् पुष्णन् अधर्मेण विनष्टदृष्टिः भ्रातुर्यविष्टस्य सूतान् विभन्तुन् प्रवेश्य लाक्षाभवेन धहा यथा सभायां गुरुदेवदेव्यां केषा विमर्शं सुतकर्म गर्ह्यं स्वाश्रैर्हरन्त्या कुचकुङ्कुमानि द्यूते ध्वधर्मणे जितस्य साधो सत्यावलम्भस्य वनागतस्य न याच दोधात् समयेन जुषानो यध जातः ोः यदा च प्रात्तप्रहितः सभायां जगद्गुरोर्यानि जगात कृष्णः नथाय पुंसाम् अमृतायनानि राजोरुमेने क्षतपुण्यलेशक यतो बहुतो भवनं प्रविष्टो मन्त्राय पृष्टखिलपूर्वजेन अथाह तन्मन्त्रशां वरीयान् यन्मन्त्रिणो वैधुरिकं वदन्ति अजातशत्रो प्रतियश्यधायं तिदिशो दुर्विषहन्तवाघः सहानुजो यत्र गृहोधराहि स्वसंषय यत्त्वमलम् बिभेषेम् पार्तां स्तु भगवान् मुगुन्तो गृहीतवान् षक्षिधिः आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिता शेष नृदेवदेवः स एष दोषः पुरुषद्बिडास्ते गृहान् प्रविष्टो यमभत्यमत्या पुष्णासि कृष्णाद्विमुखो गतश्री त्यज्यास्वशैबं कुलकौशलाय इत्यूचिवांस्तत् सुयोधनेन प्रवृद्धकोप स्फुरिताधरेण असत्कृतस्सत्पृगणीयशीलक्षक्तासकर्णानुजसौ भलेन कयेनमत्रो भजुहाभजिह्वं दास्यां यत् बलिनैव पुष्टः तस्मिन् प्रदीप परकृत्य स इत्तमत्युल्भणकर्णभाणैर्भ्रातुः पुरोता स्वयं धनुर्ध्वरि निधाय मायां गतव्यमानयानः स निर्गतकौरव पुण्यलब्धो गजाक्वयातीर्थपदः पदानि सहस्रमूर्तिः पुरेशो, पुण्यो भवनाद्रिकुञ्जेषु अभङ्कतोयेषु सरित्सरस्सु अनन्तलिङ्गै समलङ्कृतेषु सचारतीर्थायतनेषु अनन्यः घां पर्यटन्मेद्य विविक्तवृत्ते सधाप्लुतोधः सयनोऽवधूतः अलक्षितस्वय्यवधूतवेष व्रतानि चेरे हरितोषणानि इत्तं व्रजन् भारतमेव वर्षं कालेन यावत् तावत् ससा स क्षितिवेकचक्रान् एकादभ्रामजितेन पार्थहान् तत्रादशुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवन्निसंश्रयं अथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीं तस्यां तृतस्योऽसनसो मनोश्च वृथो अधाग्ने असितस्य वायोः तीर्थं सुधासस्य गवां गुहस्य यश्राद्धदेवस्य स आशिषेवेम् अन्यानि चेत द्विजदेवदेवै कृतानि नानाय धनानि विष्णोः प्रद्यङ्गमुख्याङ्कितमन्धिराणि यद्दर्शनात् कृष्णम् अनुस्मरन्ति ततस्त्वदिव्रज्जरसुराष्ट्रं रुद्धं सौवीरमस्त्यान् गुरुजाङ्गलांश्च कालेन तावत् यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्शन् सवासु चरं प्रशांतं, सवासुदेवाचर प्रशात बृहस्पतिन प्रतीत आलिंग्यम प्रणये न भद्रम स्वानापृद्भगव्रजा कच्चिपुराण पुषौस्वनाभ्य पद्मा किलवतीर्ण आसाद्या्य कुशल विधाय कृतक्षणौ कुशलं सुरगेः कच्चित् कुरूणां परमसुहृन् नोभाम स आस्ते सुखमङ्घसौरिः यो वैश्वरूणां पितृव दधाति वरान् वधान्यो वरतर्पणेन कच्चिद्वरूतादिबतिर्यधूनां प्रद्युम्न आस्ते सुखमङ्घवीरः यं रुक्मिणी भगवतोऽभिलेभे आराध्यविप्रान् स्वरमाधिसर्गे कच्चित् सुखम् शाश्वतवृष्णिभोज दासार्हकाणामधिभ आस्ते यमभ्यक्षिञ्चत् सतपत्रनेत्रो नृपासनाशाम् परिहृत्य दूरात् कच्चित् हरे सौम्यसुतक् सदृक्ष आस्ते घृणीरतिनां सा साधुसाम्बहा असूतयं जाम्बवती व्रताढ्यान् देवं गुहं योऽम्बिगया वृधोऽग्रें क्षेमं स युयुधान आस्ते यः पाल्गुन्नाल्लब्धधनुरहस्यः लेभेञ्जसा अधोक्षयसे देवयैव गतिं तदीयां यतिभिर्धुरापां कच्चित् बुतस्वस्त्यनमिव आस्ते स्वपल्कपुत्रो भगवत्प्रपन्नः यः कृष्णपादाङ्गितं मार्गपांशुषु अचेष्टतप्रेम विभिन्नधैर्यैः कच्चित् शिवं देवगभोजबुर्द्या विष्णुप्रजाया इव देवमातुः या, या स्वगर्भेण धधार त्रयीयथायज्ञतान्नमर्थम् अभिस्मिदास्ते भगवान् सुखं वो यः सां त्वतां कामदुःखो निरुद्धः या मामनन्ति मनोमयं सत्त्वरीयतत्त्वम् अभिस्मिधन्ये च निजात्मदैवम् अनन्यवृत्त्या समनोव्रधाये हृदिकसत्यात्मजचारुदेष्ण गदा तय स्वस्ति चरन्ति सौम्याम् अपि स्वधोर्भ्यां विजयाच्युधाभ्यां धर्मः परिपाति सेतुं दुर्योधनो तप्यत यत् साम्राज्यलक्ष्म्यां विजयानुवृत्यां किं वा कृतागेशो अगमत्यमर्षि भीमोहिवद् दीर्घतमं व्यमुञ्च यस्याङ्घ्रिपातं रणभूर्णसेहे मार्गं गता यश्शरतो विचित्रं कच्चित् गाण्डीवधन्वो परधारिरास्ते अलक्षितो यच्छरगूटगूढो मायागिरातो गिरिशस्तु दोष यमावुतस्वित्तनयौ वृथाया पात्रैर्विशौ पक्ष्मभिरक्षिणीव रेमातमुद्धाय मृतेष्वरिक्तं परात्सु पर्णाविभवज्रिवक्त्रात् राजशिवर्येण विनापितेन यस्वेकवीरोधि रथोऽभिजिज्ञे धनुर्द्वितीयः ककुपश्चतस्रहाँ सौम्यानुशोचे तमधक्पतन्तं भ्राद्रे परेताय विदुगृहेयहान् निर्यापितो येन सुहृत्स्वपुर्यान् अहं स्वपुत्रान् समनुव्रतेन सोऽहं हरेर्मर्त्यविडम्बनेन दृशेर्नृणां चालयतो विधातुः नान्योपलक्ष्म्यैः पदवीं प्रसादात् चरामि पश्यन् कतविस्मयोऽत्र नूनं नृपाणां त्रिमधोत्पदानां मही मुहुश्चालयतां च वदात् प्रपन्नार्ति सोऽपि उपैक्षताघं भगवान् कुरूणाम् अजस्य जन्मोत्पदनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसां नन्दन्यथा गोर्हति देहयोगं परोगुणानामुदकर्मतन्त्रं तस्य प्रपन्ना किल लोकपानाम् अवस्थितानाम् अनुशासने इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्ते वितुर उद्धवसंवाते प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिके जय